अथ श्रीमहाभारते आदिपर्वणि सप्तनवत्यधिकशततमोऽध्यायः द्रुपद उवाच अभुत्वैवम् वचनम् ते महर्षे मया पूर्वे यतितम् संविधातुम् न वैशक्यम् विहितस्यापयानम् तदे वेदमुपपन्नम् विधानम् दिष्टस्य ग्रन्थिरनिवर्तनि यः स्वकर्मणा विहितम् नेह हि वरैकहेतोस्तदे वेदमुपपन्नम् विधानम् यथैव कृष्णोक्तवतीम् पुरस्तान्नैकम् पतिम् भगवान् ददातु स चाप्येवम् वरमित्यब्रवीत् देवो हि वेत्ता परमम् यदत्र यदि चैवम् विहितः शङ्करेण धर्मो धर्मो वा नात्र ममापराधः गृह्णन्त्विमे विधिवत् पाणिमस्या यथोपजोषम् विहितैषाम् हि कृष्णा वैशम्पायन उवाच ततोऽब्रवीत् भगवान् धर्मराजमद्यैव पुण्याः मुतः क्वः पाण्डवेय अद्य पौष्यं योगमुपैति चन्द्रमाह्पाणिं कृष्णायास्त्वं गृहाणाद्यपूर्वम् ततो राजा यज्ञसेनः स पुत्रो जन्यार्थमुक्तम् बहु तत्तदग्र्यम् समानयामाससुतां कृष्णाम् आप्लाव्यरत्नैर्बहुभिर्विभूष्य ततस्तु सर्वे सुहृदो नृपस्या समाजग्मुःसहिता मन्त्रिणश्च द्रष्टुं विवाहं परमप्रतीता पौराश्च यथा प्रधानाः ततोऽस्य वेश्माग्र्यजनोपशोभितं बलौ भरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम् ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः पुरोहितेनाग्निसमानवर्चसा सहैव क्रमेण सर्वे विविशुस्ततः सदो